पञ्चशान्तयः वाक्पूर्णसहनाप्यायम् भद्रम् कर्णेभिरेव च पञ्चशान्तेः पठित्वादौ पठेद्वाक्यान्यनन्तरम् इत्युक्तम् ताश्च ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितं मा विरावैर्म एधि वेदस्य मा आणे स्तः श्रुतं मे मा प्रहसेरनेनाधीतेनाहोरात्रान् सन्दधामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारम् अवत्त्वक् अवतु माम् अवतु वक्तारम् अवतु वक्तारम् ॐ शान्तिः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते शान्ति शान्ति शान्तिः ॐ सहनावतु सहनवो भुनक्तु सहवीर्यङ्करवावहये तेजस्विनावदेतमस्तु मा विद्वशाहये ॐ शान्ति शान्ति शान्तिः ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुश्रोत्रम् अथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदम् माहम् ब्रह्मनिराकुर्याम् मा ब्रह्मनिराकरोद निराकरणमस्त्वनिराकरणम् मे अस्तु तदात्मनि निरतेय उपनिषत्सुधर्मास्ते मयिषन्तु ते मयिषन्तु ॐ शान्ति शान्ति शान्ति ॐ भद्रं कर्णेभिः शृणुयामदेवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुपाकुंशस्तनोभिः यषेमदेवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्योरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्तिः शान्ति शान्तिः इति पञ्चशान्तयः अथ मङ्गलाचरणम् ॐ श्रीमद्विश्वाधिष्ठानाय परमहंसाय नमः यो विद्यादि विद्यादिविदेहान्तमहावाक्यार्थविग्रहः श्रीरामचन्द्ररूपाय तस्मै भूतात्मने नमः यः पूज्यो यतिभिःष्वधर्मनिरतैर्जायन्ति यं योगिनो येनात्तम् निगमान्तवेद्यमनिशम् यस्मैहविर्दीयते यस्मात्स्थावरजङ्गमम् समभवद्यस्यांशमानो वरो यस्मिं लीनमिदम् प्रणौमि सततं तं गुरुम् नत्वा श्रीवासुदेवेन्द्रपादपङ्केरुरहद्वयं ग्रथ्यते वै महावाक्यरत्नावलिरियं मया अष्टोत्तरशतोपनिषदः अथ खलु ऋग्वेदादिविभागेन वेदाश्चत्वारः तत्र एकविंशतिशाखारुचः नवाधिकशतशाखायजः सहस्रशाखासाम्नः पञ्चाशत् शाखा अथर्वणस्य एकैकस्याः शाखाय शाखा एकैकोपनिषत् एक शाखा एक एक आहत्याशीतिसहितशताधिकसहस्रसङ्ख्याका उपनिषदः तासु श्रीरामचन्द्रेण रामदूताय उपदिष्टाह सारतरोपन अष्टोत्तरशतसख्या तथा स्थान तरश्टो तरश्टो नाम श्लोका कठप्रश्न ऐतरेयम मुंडमांडूक्यति ऐतरेय चांदौ्यं तथा ब्रह्मकैवल्यजाबालौ श्वेताश्वो हंस आरुणे गर्भो नारायणो हौसो, बिन्दुनादशिरहस्य मैत्रायणे कौशितके बृहज्जाबालतापिने कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका सर्वसारं निरालम्बम् रहस्यं वज्रसूचकं तेजोनादध्यानविद्या योगतत्त्वात्मबोधकम् परिव्राट्त्रिषिके सीता चूडानिर्वाणमण्डलं दक्षिणाशरभं स्कन्दं महानारायणावयम् रहस्यं रामतपनं वासुदेवं चमुद्गलं शाण्डिल्यं पैङ्गलं भिक्षुं महच्छारीरकं शिखा तुर्यातेतञ्च संन्यासं परिव्राजाक्षमालिका अव्यक्तैकाक्षरपूर्णा सूर्याक्षध्यात्मकुण्डिका सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् त्रिपुरातपनं देवे त्रिपुराकटभावना हृदयं कुण्डले भस्म रुद्राक्षगणदर्शनं तारसारमहावाक्यपञ्चब्रब्रह्माग्निहोत्रकम् गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकं शाट्यायनेहयग्रेवम् दत्तात्रेयंच गारुणं दत्ताेय गुम कलिजाबा सौभाग्य रसस्युच मुक्ति अष्टोत्शनषद शाखाभेदर्शयति तशोपनिषदेदगत शुक्ल ययुशकपंचाश तत्र शुक्लयज एकोनविंशतिः कृष्णयजो द्वात्रिंशत् शाम्नः षोडश अथर्वणस्य एकत्रिंशत् आहत्याष्टोत्तरशतम् अथैषां पूर्वाचार्यप्रकाशतत्त्वं दर्शयति तत्र गौडपादाचार्यैर्माण्डुक्योनिषद्व्याख्याता श्रीमच्छङ्करभगवत्पादाचार्यैर्दशोपनिषदः पञ्चरुद्रं नृसिंहतापने च शङ्करानन्दैः सदाशिवब्रह्मेन्द्रैः स्वयंप्रकाशानन्ताद्यैश्च त्वात्रिंशोपनिषदः विद्यारण्याचार्यैरष्टोत्तरशतोपनिषदो व्याख्याताः महावाक्यरत्नावलि आख्यायिकाया त्रयोदशधा विभागम् दर्शयति रामचन्द्रेणोपदिष्टे रामदूताय धीमते ईशाद्यष्टोत्तरशतोपनिषद्यादसाम्पत्तौ निमज्जात्र महावाक्यरत्नावलिरुदारुता विभाव्यते विभागेन त्रयोदशधा पुनः तत्रादौ विधिवाक्यानि बन्धमोक्षपराणि च अविद्वद्देयवाक्यानि जगन्मिथ्यापराणि च तथोपदेशवाक्यानि जीवेशैक्यपराणि च ब्रह्मविन्मननवाक्यानि जीवन्मुक्तिपराणि च ब्रह्मा तत्सरा चूपवाक्यालवाक्यार विदेहमुक्तिवाक्या लिख्यतेन्व्य तत्क्र महावाक्यरत्व्यां यथोक्ता दर्शयतीस्वाश्रचाररत परव्रड् विजिंद्रिय श्रोधिकारे महावाक्यरत्नावल्यां न चापरः वाक्पूर्णसहनाप्यायम् भद्रकर्णेभिरेव च पञ्चशान्तेः पठेद्वादौ पठेद्वाक्यान्यनन्तरम्